मुद्गलपुराणं खण्डं सवन् विघ्नराजचरितम् अध्यायं टेन् विष्णुवावतारवर्णनं श्रीगणेशाय नमः दिधिरुवाच श्रुत्वा ब्रह्मप्रदं पूर्णं सर्वसिद्धिप्रदायकं चरितं विघ्नराजस्य न तृप्ताहं मुनीश्वर अहो विघ्नपदिस्साक्षाद्ब्रह्मभूतो न संशयः मया ज्ञादोऽधुनानाथ तव वाक्याद्विशेषतः अवतारान्वत स्वामिन्विघ्नेशस्य महात्मनः मुख्यानपारकेषु त्वम् तारयस्वभवार्णवाद मुद्गल उवाच एवं पृष्ठो महायोगी कश्यपो हर्षसंयुधः समालिङ्ग्यप्रियां दक्ष जगादवचनं हितं धन्यासि दक्षपुत्रित्वं येन विघ्नेश्वरे रदिः जादादे सार्थकम् सर्वं करिष्यसि न संशयः विघ्नेशेन महादेवी सृष्ठम् ब्रह्मह्यः सन्मयम् सद्रूपम् तत्र बिम्बेन मायाभ्याम् संस्थितप्रभुः ततस्ताभ्याम् मिलित्वा वै सृष्ठम् च दिविदम्बरम् स्वदपरद उद्धानं तदसौहं च बिन्दुकं ततश्चतुर्विधं देवि विश्वं सृष्ठं विशेषतः स्थूलसूक्ष्मसमात्माख्यमेकानेकादिसंयुधं एवं नानाविधं ब्रह्मविश्वं नानाविधं पुरा आनन्देन विहीनत्वात् बभौ व्यापारवर्जितं स्वस्वक्रियां प्रचक्रुर्वै न तत्र हीनतान हीनता न तथा खेदयुक्तानि सम्बभुः तैस्तपोखररूपं तु कृतं विघ्नेश्वरस्य वै ध्यात्वा ब्रह्ममयं रूपमेकाक्षरविधानदः दिव्यवर्षसहस्रे तु गते तु विघ्ननायकः हृदि तेषां भूत् प्रकटश्च बभूवः नरकुञ्जरयुक्तं यद् दर्शयामासरूपकं दृष्ट्वा तं हर्षितानि ब्रह्माणि वैने मुरन्दरे विघ्नेश कृपया तेषां तद्रूपज्ञानजो मलः बोधो बभूव तेनैव तुष्टानि स्म भजन्ति तं विष्णुस्वरूपेण विघ्नेशो वरदो भवद आगत्य वरान् वरान्वृणुद सर्वपः तदो ब्रह्माणि दृष्ट्वा विस्मितानि बभूविरे विघ्नेशकृपया तेषां ज्ञानं तस्य बभूवः बिम्बात्मकश्च सर्वत्र विघ्नेशोऽयं प्रतापवान् स्वमहिं निश्चितः सोऽपि गजवक्त्रादिचिह्नितः तदोकर्षयुगान्येवं प्रणेमुर्भक्तिभावदः न त्वा पूज्य महाविष्णुं तुष्टुगुस्थं सुलोचने ब्रह्माण्योचुः विघ्नेशायनमस्तुभ्यम् गरुडध्वजिने नमः चतुग्भुजाय सर्वेषां पदये वै नमो नमः चक्रपाणे रमेशाय परात्परतराय च हैरम्बाय विकुण्ठस्य नाथाय नमो नमः स्वानन्दवासिने तुभ्यं गजाननाय ढुण्ढये अपाराय महेशानसुताय तु नमो नमः काश्यपाय च शेषस्य पुत्राय भक्रवत्सलः दैत्यदानवनाशाय शार्ङ्गिणे ते नमो नमः गदाधराय देवाय वासुदेवाय देवप धर्मस्थापनकाराय ब्रह्मणे ते नमो नमः सदसन्मयरूपाय चानन्दपदधारिणे समाय सर्वभावेषु शाश्वताय नमो नमः नमो वागदिरूपाय देहदेहि प्रचारिणे बोधाय च विदेहाय विष्णवे ते नमो नमः किं स्तुमस्त्वां परेशान यत्र द्वेदा विकुण्ठिताः योगिनस्तु महाभागप्रसन्नो भवते नमः ब्रह्माणि एवं स्तुत्वा च प्रणेमुस्तं जनार्दनं तान्युद्धाप्य जगाद स्वयं विष्णुर्हर्षसं युधः विष्णुरुवाच भवत्कृतं मदीयं च भवेद मुक्तिदं शृण्वदे ब्रह्मदायकं पठते सदा ब्रह्माणि यद्यदिच्छेद तत्तद्वृणुदसत्वरं दास्यामि तपसातुष्टस्तोत्रेणानेन निश्चितं ब्रह्माण्योचुः देह्यानन्दमयं नाथसौख्यं स्वाभाविकं परं सामर्थ्यं स्वस्वकार्येषु सत्यसङ्कल्पसम्भवं तव पादयुगे नाथ भक्तिं देहि विशेषतः योगशान्ति भवं सौख्यं ब्रह्मभूयप्रदायकं विष्णुरुवाच भवद्भिप्रार्थितं सर्वं तत्तत्सर्वं भविष्यदि सफलं सर्वभावेन कुरुध्वं कार्यमुत्तमं योगशान्तिं प्रवक्ष्यामि ब्रह्मभूयप्रदायिनीं ब्रह्माणि भक्तियुक्तानि शृणुध्वं योगसेवनाद पञ्चचित्तमयीं बुद्धिं तत्र भ्रान्तिकरीं पराम् सिद्धिं जानीद सर्वत्र तयोस्वामी गजाननः सम्प्रज्ञादमयो देहो सम्प्रज्ञादात्मकं शिरः गजरूपं तयोर्योगे देहधारी बभूवः संयोगाख्यो गकारश्च नकारो योगगस्मृतः तयोर्योगे गणेशोऽयं नाम भूनात्रसंशयः स्वसंवेद्येन योगेन दर्शनं जायते परं गणेशस्य च तेन स्मृतः स्वानन्दवासकः असच्चक्रिश्च सद्भानुसमोहं नेदि शङ्करः चतुर्णां ब्रह्मणां योगे स्वानन्दकथ्यदे बुधैः स्वानन्दो मायया युक्तसंयोगाद् ब्रह्मणां मदः अयोगो ब्रह्मणां मायया व्यदिरेकदः व्यधिरेकदः संयोगा योगयोर्योगे गणेशशान्धिरूपधृक तं भजध्वं विशेषेण हृदि चित्तप्रचालकं तेन च ब्रह्मभूतानि भविष्यधनसंशयः ब्रह्माणि कथितं योगं प्रयुंध्वं भक्तिकारणाद यद्यच्च क्रियते तत्त्वाय जगद्रचनकादिकं भवद्भिस्तद्गणेशाय समर्प्य सकलाक्रियाः यवमुक्त्वा महाविष्णुस्तत्रैवान्धरधीयदा ब्रह्माणि तं नमस्कृत्य साधयामासुरञ्जसा क्रमेण ब्रह्मभूतानि ब्रह्माणि बभूविरे तानि ब्रह्माणि योगेन गाणेशे दक्षनन्दिनि तदा आनन्दयुक्तानि चक्रु सर्वं चराचरम् तत्रानन्देन सर्वाणि क्रीडां चक्रुः परस्परं यदत्ते सर्वं चरित्रं देविशोभनं विष्णुरूपधरस्यास्य विघ्नराजस्य सर्वदं शृणुया यो नरो वापि पठेत्तस्य प्रिये सदा भुक्तिमुक्तिप्रदं पूर्णं सर्वानन्दकरं भवेद ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषद्दि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते विष्णुवावतारवर्णनं नाम दशमोऽध्यायः ॐ